कोटि प्रतिमं त्रिनेत्रम् पद्मासनेनार्जितदिव्यलिङ्गम् वन्दामहे मार्गसहायलिङ्ग ङ्गा तरङ्गोलसदुत्तमाङ्गम् गजेन्द्र चर्माम्बरभूषितङ्गम् गौरीमुखाम् भज बिलोलभृङ्गे मार्गसः सुकङ्कणीभूतमहाभुजङ्गम् संज्ञान सम्पूर्ण निजान्तर tangam vandamahe मार्ग सहायक लें somya katakshalingam vamanga saundarya vilolita angam vanda mahaye marga sahayalingam पञ्चाक्षरीभूतसहस्रलिङ्गम् पञ्चामृतस्नानपरायणाङ्गम् पञ्चामृताभोज विलोलभृङ्गम् वन्दामहे मार्गसः वन्दे महामेरु महामेरुशरासनं शिवं वन्दे सदा मार्गसहायलिङ्गम् वदा महेलिङ्गम् वन्दे सदा